62 उवाच वततस्तस्य मकंडेयपुराण्या सिकिटू मकंडेय उच ये वनुवतुत्र् पालक गापथ्य शरीर तो सन्नीमदक तेना चाधीषतोध प्रभामंडलमध्यग व्यदीपयदतं देशं मूर्तिमानिवहव्यवाट तस्यास्तु सुतरां तत्र ताद्रुग्रूपे द्विजन्मनी अनुरागो भवद्विप्रं पश्यन्त्या देवयोषितः तदस्तोधिष्ठितस्तेन हव्यवाहेन तत्क्षणाद यथा पूर्वं तथा गन्तुं प्रवृत्तोद्विजनन्दनः जगामचत्वरायुक्तस्तया देव्या निरीक्षितः आदृष्टिपादात्तन्वङ्ग्या निश्वासोत्कम्पिकन्धरम् ततः क्षणेनैव तदा निजगेहमवाप्यसः यथा प्रोक्तं द्विजश्रेष्ठश्चकार सकलाक्रियाः अथ सा चारुसर्वाङ्गी तत्रा सक्तात्ममानसा निःश्वासपरमानिन्ये दिनशेषं तथा रुददी मुहुहु। मन्दभाग्येदि चात्मानं निनिन्दमधिरेक्षणा न विहारेण चाहारे रमणीयेन वावने न कन्धरेषु रम्येषु सबबन्धतदारधिं चकाररममानेच च च वरारोहा निनिन्द निजयौवनं क्वागदाहमिमं दुष्टदैवबलात्कृदा क्व च प्राप्तः समे यद्य स महाभागो न मे सङ्गमुपैष्यति तत्कामाग्निरवश्यं मां क्षपयिष्यति दुःसहमणीयमभूद्य तत्पुंस्कोकिल निनादिदं तेन मार्कण्डेय उवाच इत्थं सा मदनाविष्टा जगाम मुनिसत्तमवृधे च तदा रागस्तस्यास्तस्मिन् प्रदिक्षणम् कलिर्नाम्नादुगन्धर्वः सानुरागो तया पूर्वमभूत्सोध तदवस्थां तदर्शदां सचिन्तया तदा किं न्वेषा गजगामिनी निश्वासपवनम्लाना गिरवत्रवरूधिनी मुनिशापक्षदा किं नु केनचित्किं विमानिदा वाष्पवारिपरिक्लिन्नमियन्धत्ते यतो मुखं ततः सुचिरं तमर्थं कौतुकात्कलिः ज्ञादवांश्च प्रभावेण समाधे स यथा तथम् पुनः स चिन्तयामास ममोपपादितं साधु भाग्यैरेदत्पुरा कृतैः मयैषा सानुरागेण बहुशः प्रार्थिता सती निराकृतवती शेयमद्य प्राप्या भविष्यति मानुषे सानुरागेयं तत्र तद्रूपधारिणि रंस्यदे संदिग्धं किम् कालेन करोमि तत् मार्कण्डेय उवाच आत्मप्रभावेण ततस्तस्य रूपं द्विजन्मनः कृत्वा चचारयत्रास्ते निषण्णासा वरूधिनी सा तं दृष्ट्वा वरारोह किञ्चिदुत्फुल्ललोचना समेत्य प्राक् तन्वङ्गीप्रसीदेति पुनः पुनः त्वया त्यक्दानसन्देह परित्यक्ष्यामि जीवितं तत्रा धर्मकष्टतरक्रियालोभो भविष्यति मया समेत्य रम्येऽस्मिन् महाकन्दरकन्दरे मत्फरित्राणजं धर्ममवश्यं प्रतिपत्स्यसे आयुषः सावशेषं मे नृणमस्तिमहामदे निवृत्तस्तेननूनं त्वं हृदयाह्लादकारकः कलिरुवाच किं करोमि क्रिया हानिर्भवत्यत्र सदो मम त्वमप्येवंविधं वाक्यं ब्रवीषितनुमध्यमे तदाहं संगडं प्राप्तो यद्ब्रवीमि करोषि तद् यदि स्यात्सङ्गमो मेद्य भवत्या सह नान्यथा वरूधिनी उवाच प्रसीद यत् तत्करोमि न ते मृषा ब्रवीमेदनाशङ्गं यत्ते कार्यं मयाधुना कलिरुवाच नाद्यसम्भोगसमये द्रष्टव्योऽहं त्वया वने निमीलिताक्ष्यासंसर्गस्तव सुभ्रुमया सह वरूधिन्युवाच येवं ंभवदुभद्रं यथेसी तथास्त मैयाकार पश्येस्ते तवाधुना श्री मकंडेयपुराणे स्वाचिषे मन्व्टध्याय ओ